प्रथमाष्टकप्रारम्भः ब्रह्म सन्धत्तम् तन्मे जिन्वतम् क्षत्रकुम् सन्धत्तन्तन्मे जिन्वतम् इषकुम् सन्धत्तन् ताम् मे जिन्वतम् ऊर्जकुम् सन्धत्तन् ताम् मे जिन्वतम् रयितुम् सन्धत्तन् ताम् मे जिन्वतम् पुष्टिकम् सन्धत्तन् ताम् मे जिन्वतम् प्रजाकुम् सन्धत्तन् ताम् मे जन्वतम् पशून्सन्धत्पन्तान्मे दिन्वदम् स्तुतो जनथाः देवास्त्वा शुक्रवाः प्रणयन्तु सुवीराः प्रजाप्रजनगन्परीः शुक्रः शुक्रशोजुषा स्तुतोजनथाः देवास्त्वा मन्थिपाः प्रणयन्तु सुप्रजा प्रजा प्रजनगन्परीः मन्थि मन्थिसोऽजुषा सञ्जग्मानौ दिवाः पृथिव्यायोः सन्धत्तन्तन्मे जिन्वदम् यानकुम् सन्धत्तन्तम् मे जिन्वदम् अपानकुम् सन्धत्तन्तम् मे जिन्वदम् यानकुम् सन्धत्तन्तम् मे जिन्वदम् चक्षुः सन्धत्तन्तन्मे जिन्वदम् श्रोत्रकम् सन्धत्तन्तन्मे जिन्वदम् मनः सन्धत्तन्तन्मे जिन्वदम् बाचकम् सन्धत्तम् ताम् मे जन्मदम् आयुस्थायुर्मे धत्तम् आयुर्यज्ञाय धत्तम् आयुर्यज्ञपदगे धत्तम् प्राणस्थः प्राणम् मे धत्तम् प्राणैयज्ञाय धत्तम् प्राणैयज्ञपदगे धत्तम् चक्षुस्थश्चक्षुर्मेधत्तम् चक्षुर्यज्ञाय धत्तम् चक्षुर्यज्ञपदगे धत्तम् श्रोत्रग्रस्थः श्रोत्रम् मे धत्तम् श्रोत्रम् यज्ञायधत्तम् श्रोत्रम् यज्ञपतगे धत्तम् तौ देवौ शुक्रावन्सिणौ कल्पयतन्देऽर्विषः कल्पयतम्मानुषेः विषमोर्जमस्मासु धत्तम् प्राणान् पशुषु प्रजाम्मयि जयजमाने च निरस्तः षण्डः निरस्तोमर्कः अपनर्तौ शण्डामर्कौ धामुना शुक्रमिरसि मन्थिलः स्रमिरसि सप्रथमः सङ्कृतिर्विश्वकर्मा सप्रथमो मित्रावनाग्निः सप्रथमो बृहस्पतिश्चित्वान् अस्मादिन्द्राय सुतमादिहोमि कृत्तिका स्वग्निमादधीता एतद्वार्णेर्णनक्षत्रम् यत्कृत्तिकाः स्वायामेवैनम् देवतायामाधाय ब्रह्मवर्चसी भवति मुखम् वा एतन्नक्षत्राणाम् व्यत्कृत्तिकाः यः कृत्तिका स्वग्निमा धत्ते मुख्य एव भवति अथो खलु अग्निनक्षत्रमित्यपचारयन्ति गृहान् हलाहुरो भवति प्रजापतेरोहिण्यामग्निवसरा अनम् देवारोहिन्यामादधरा ततो वै ते सर्वान् रोहान्रोहन् तद्रोहिण्यै रोहिणी त्वम् यो रोहिण्यामग्निमाधत्ते वृद्ध्नो गेवा सर्वान् रोहान् रोहति देवा वै भद्राः सन्तोऽग्निमाधिः सन्त केषामनाहितोऽज्ञाधीत् अथैयेभ्यो वामम् वस्वपाक्रामते ते पुनर्वस्वोरादधत ततो वेतार वामम् वसोपावर्तत यः पुरा भद्रः सन्पामीयाम् स्यात् स पुनर्वस्वोरग्न्यमादधीत पुनरेवैनम् भद्रो भवति यः कामके तदा न कामाने प्रजास्युरिति स नो वा एतन्नक्षत्रम् यत्पूर्वे अर्यमेतमाहुर्यो ददाति दानकामास्मै प्रजा भवन्ति यः कामयेत भगे स्यामिति स उत्तरयो फल्गुन्योरग्निमादधीता भगस्य वा एतन्नक्षत्रम् यदुत्तरे फल्गुनी भग्ये भवति कालकञ्चा वैनामासुराः सन् ते पुरुषष्टकामपादधात् पुरुषयिष्टका स इन्द्राब्राह्मणा ब्रुवाणयिष्टकामपाधत्त येषा मे चित्राणामेति तेषु वर्गम् लोकमाप्रारोहन् स इन्द्रयिष्टकामावृषत् के तपोर्णामभयो भवन् द्वादपतता तौ दिव्यौ श्वानाव भवताम् योऽभ्यादुर्व्यमान् स्यात् स चित्रायामग्निमातधीता अमयेरयैवभ्यादुर्व्यान् ओजोपलमिन्द्रियम् वीर्यमात्मन्धत्ते वसन्ता ब्राह्मणोऽग्निमातधीता वसन्तो वे ब्राह्मणस्यर्तुः स्व एवेन मृता बाधाय ब्रह्म वर्तसि भवति मुखम् वा हेतधथूनाम् यद्वसन्तः यो वसन्तःमाधत्ते मुख्य एव भवति अथो यो निमन्तमेवैनम् प्रजातमाधत्ते रेष्मेनाजन्य आदधीतेष्मो वेनाजन्यस्यर्तुः स्व एवेन मृताबाधाय इन्द्रियावी भवति शरदिवैश्यादधीत शरद्वैवैष्यस्यर्तुः स्वगैवेन मृतापाधाय पशुमान्भवति न पूर्वयोः फल्गुन्योरग्निमादधीत एषा वेदघन्यारात्रिसंवत्सरस्य यत्पूर्वे फल्गुणी पृष्टितगेवसंवत्सरस्याग्निवादाय जा, पापीयान्भवति उत्तरयोरादधीत एषा वेत्प्रथमारात्रिः संवत्सरस्य यदुत्तरे फल्गुणी मुखदगेपसंरत्सरस्याज्ञमाधाय अधीयान्भवति अथो खलु यथैवै न यज्ञमुपणमेत् असादधीता सैवास्यः उद्धन्ति यदेवास्यामेध्यम् प्रवहन्ति अभो वोक्षतिशान्त्यैः सिगतानिवपति एतद्वाग्नेर्वैश्वानरस्य रूपम् रूपेणैव वेयेष्वा जनमवरुन्धे ऊषाण्यवपति पुष्टिर्वा एषः प्रजननम् यदूषाः पुष्ट्यामेव प्रजननेऽग्निमाधत्ते अथो सञ्ज्ञान एव सञ्ज्ञान्ये तत्पशूनाम् जयूषाः व्यावादृषभि सहास्ताम् देवि यति अस्ते मनौ सह यज्ञयमिति यदमुष्यायज्ञयमासीत् तदस्यामदधात् त ऊषा अभवन् यदस्या यज्ञियमासीत् तदनुष्यामदधात् तदश्चन्द्रमसि कृष्णम् ऊषान्निवपन्नतोऽध्यायेत् या वा पृथिव्यो देव यज्ञिग्निमाधत्ते आखो लोपम् कृत्वा सपृथिवीम् प्राविशत् सभोतेः कुर्वा नः पृथिवीमनुसमचरत् तदा कुह एषमभवत् यदा उपदेका उद्दिहन्ति यद्वल्मीकम् यद्वल्मीकमपासम्भावो ऊर्जमेव रसम् पृथिव्या अवरुन्धे अथो श्रोत्रमेवा श्रोत्रगृह्ये तत्पृथिव्याः यद्वल्मीकः अवधिरो भवति यगेवम् वेदा प्रजापतिप्रजा असृजत तासामन्नमुपाक्षीयत ताभ्यस्तूदमुपप्राभिरो ता वेतासामन्नन्ना क्षीयत यस्य लोकः भवति नास्य गृहेऽन्नम् क्षीयते आपो वा इदमग्रेऽथलिलमाधीते तेन प्रजापतिरशाम्यते कथमिनग्र्यादिति स्वोपश्यत्पुष्करपर्णम् तिष्ठते सोऽमन्यथा यस्मिन् निलमधितिष्ठतीति सराहो रूपम् कृत्वाज्यते स पृथिवीमथ आगच्छते तस्या उपाहत्योऽधमज्जते तत्पुष्करपर्णे प्रथयत् यदप्रथयत् तत्पृथिव्यै पृथवित्वम् अभोद्वा इदमिति तद्भोम्यैभोमित्वम् तान्निषोऽवाधस्तमवहत् आगुम् शर्कराभिहतम् वहत् शम्बैना भोदिति तच्छर्कराणागुम् शर्करत्वम् यद्वराहविहतकम् सम्भाव भवति अस्यामेवाशम्बट्कारमग्निमाधत्ते शकलाभवम् तिहृत्यै अथो शन्त्वाया सरेताग्निराधेयित्याह आपो वरुणस्य पत्रया सन्मे ता अग्निरभ्यध्यायते ता ताः समभवत् तत्सरेतः ता परापतते तद्धिरन्यमभवते यद्धिरन्यमुपास्यति सरेतसमेवाग्निमाधत्ते पुरुषिन्वै स्वाद्रेतसोऽभत्सद इत्याहः उपास्य अभिप्रयच्छति आर्तिवाभिप्रयच्छति अग्निर्देवेभ्यो निनायत अश्वरूपम् कृत्वा सोऽवत्सरमतिष्ठते तदस्वत्थस्याश्वत्थत्वम् यदात्थः सम्भावो भवति यदेवासु तत्र्यक्तम् तदेवावरुन्धे देवा वावोर्जम् व्यभजन्त अदौदुम्बर उदतिष्ठते भोर्वा उदुम्बरः यदौदुम्बरसम्भावो भवति वोर्जमेवावरुन्धेयस्यामितो देशोमासीत् गङ्गायत्र्याहरदे तस्य पर्णमक्षिद्यत तत्पर्णो भवते तत्पर्णस्य पर्णत्वम् यस्य पर्णमयः भवति स्वमपीतमेवावृन्धे देवा वै ब्रह्मन्न वदन्त तत्पन्न उपाशृणोत् सुस्वभावे नाम यत्पन्नमयः सम्भारो भवति ब्रह्मवर्गतमेवावन्धे प्रजापतिरज्ञमसृजत स्वपिभे प्रमाधक्षतीति रुज्ञासमयते शान्त्याप्रदाय अग्ने सृष्टस्य गतः प्रियङ्कम्भाैकङ्गतः सम्भावः भवति भा एवालम्भे सहृदयोग्निराधे द इत्याहुः मरुतोऽद्भिरग्निमतमयन् तस्य तान्तस्य ता ता गतयः छिन्दन् साशनिरभवत् यदशमिषतस्य भवति सहृदयमेवाग्निमाधत्ते द्वादशविक्रामेष्वग्निमादधीत द्वादशमासा संवत्सरः संवत्सरा देवेनमवरुध्या सत्ते यद्वादशविक्रामेष्वारथीत परिमितमवरुन्धेत चक्षुन्निमित आदधीत यद्वादशविक्रामा इति परिमितम् चैवापरिमितम् चावरुन्धे अनृतम् वै वाचा वदति अनृतम् मनसाध्यायति चक्षुर्वै सत्यम् अद्रा विद्या अदर्शमिति तत्सत्यम् यश्चक्षुर्निमित्तेऽ्यमाधत्ते सत्यः वै न माधत्ते तस्मादाग्निर्माधृतम् वदेत् नास्य ब्राह्मणो नाश्वान् गृहे वसेत् सत्ये सत्साग्ता आज रात्रि आज्जा पशव ऐंगार दशूनेवावुंघे विवाहनीय इंद्रियुंझे अर्धनिशोहनीय लोके प्रजापति प्रजाजता प्रजादेव तद्गजमानसृजते अथोभूतम् चैव भविष्यच्चावन्धे यावै मानवीयज्ञानो काशिम् न्यासीत् साशुनात् असुरा अग्निमातसत इति तदगच्छत् ताः वनीजमग्रातथ अधकारिकपत्यम् अथाङ्ग्वाहार्यवजनम् सा ब्रवीत् प्रदेशे विश्रेरकात् भद्रा भूत्वा परा भविष्यन्तीति यस्यैवमग्निना धीयते प्रदेशस्य श्रीरेति भद्रो भूत्वा भवति शाशुनात् दे देवा अग्निमादधत इति तदगच्छत् यमग्रातस अथकारिहपत्यम् अचाहवनीरम् सा ब्रवीत् प्राच्यशाकश्रीरकार भद्रा भूत्वासु वर्गम् लोकमेष्यन्ति प्रजान्तुमवेक्ष्यन्तमिति यस्यैवमग्निनाधीयते प्राच्यस्य श्रीरेति भद्रो भूत्वासु वर्गम् लोकमेति प्रजान्तु न विन्दते सा प्रभेदिडामनम् तथा वाहन्तवाग्निमाधास्यामि यथा प्रजजापशुभिधनैर्गनिष्यसे प्रत्यस्मिल्लोके स्थास्यसि अभिवर्गल्लोकम् जेष्यसीति दारिकपत्यमग्रादधात् दारिकपत्यम् वा न प्रजाः पशवः प्रजायन्ते दारिकपत्तेनैवास्मै प्रजाम् पशून् प्राजनयते अतान्वाहार्यवचनम् तिर्यिव वा अयम् लोकः अस्मिन्नेव तेन लोके प्रत्यतिष्ठते अथाहवनीयम् <Sess> तेनैव स्वर्गम् लोकमभ्यजयते यस्यैवमग्निराधीयते प्रप्रजयापुभिधुनैर्जायते प्रत्यस्मिल्लोके तिष्ठति अभिसुवर्गम् लोकम् जयति यस्य वा यथा देवतमग्निराधीयते आ देवताभ्यो वृक्ष्यते वापीयान् भवति यस्य यथा देवतम् देवताभ्याविष्टये वसीरान् भवति भूनान्त्वाङ्गिरसाम् प्रतमदे व्रतेनाथधामेति भृग्मादद्ध्यात् आदित्यानाम् त्वादेवानाम् प्रतमदे व्रजेनाथधामेत्यन्यासाम् ब्राह्मणीनाम् प्रजानाः वरुणस्य त्वाराज्ञाम् प्रदवतले व्रजनाथधामेति राज्ञः इन्द्रस्यत्वेन्द्रयेणम् व्रतपते ब्रतेना दधामीति राजण्यस्य मणास्त्वाग्रामण्याः प्रतपते ब्रते न दधामीति वैश्यस्य प्रभूणाम् त्वादेवानाम् प्रतपते ब्रतेना दधामीति रथकारस्य यथा देवतमग्निनाधीयते न देवताभ्याहृष्यते वधीनान् भवति प्रजापदर्वाजः सत्यमपश्यते ्यमाधत्त तेन वैसार्थ्ना भोर्भवः सुपरित्याह एतद्वैवाचः सत्यम् एतेनाग्निमाधत्ते ऋद्धात्येव अथो सत्यप्राशोरेव भवति अथोय एवम् विद्वानभितरति स्मृत एवम् भोरित्याह प्रजा एव तद्यजमानः सृजते भुव इत्याह अस्मिन्नेव लोके प्रचतिष्ठति सुवैत्याः सुवर्ग एव लोके प्रचतिष्ठति त्रिभिरक्षतेर्गार्घपत्यमादधाति ते इमे लोकाः येष्वेवैनम् लोकेषु प्रतिष्ठितमाधत्ते सर्वै पञ्चभिराह वणीयम् सुवर्गाय वा एषु लोकायाधीयते यदाह वणीयः स्वर्ग एवास्मै लोके वाचः सत्यम् सर्वमाप्नोति त्रिभिर्गारिकमादधाति पञ्चभिराहवणीयम् अष्टौ सम्पद्यन्ते अष्टाक्षरा गायत्री गायत्रोग्निः यावानेवाग्निः तमाधत्ते प्रजापतिः प्रजा असृजना ता अस्मात्सृष्टाः पराचीरायन् ताभ्योज्योतिरुदगृह्णात् तनुज्योतिः पश्यन्ते प्रजा अभिसमावर्तन्त वैभाग्यमुद्गृह्णीय उद्धरन् ज्योतिरेव पश्यन्ते प्रजायजमानमभिसमावर्तन्ते प्रजापते रक्ष्यश्वयत् तत्परापत तदश्वो भवते तदश्वस्याश्वत्वम् तेजवे प्रजापतिः यदग्निः प्राजापत्योऽश्वः यदश्वम् पुरस्तान् नयति स्वमेव चक्षुः पश्यन् प्रजापतिरनुदेति प्रग्रीवा एणः यदश्वः यदस्वम् पुरस्तान् नयति जातानेव भ्रातृजान् प्रणुदते श्वः पूर्ववाद्भो त्वा प्राञ्चम् पूर्वमुदवहत् अतोवाहः पूर्ववाम् यतस्वम् पुरस्तान् नयति विभक्तिरेवैनयोः सा अथो नानावेर्यावेवैनो कुरुते यदुपर्युवर्षिरोहरेत् प्राणानुविच्छिन्द्यात् अथो हरशिरोहरति प्राणानाङ्गोपीठाय यत्यग्रेहरति अथे यक्त्यथेयति लोकाः एष्वेवैनम् लोकेषु प्रतिष्ठितमासत्य प्रजापतिरग्निमसृजता सुहमिधेत्रमाधक्षतीति तस्य त्रेधा महिमानम् व्यूहरे शान्त्य अप्रदाय यत्रेधाग्निराधीयते जा। यत्रे महिमानमेवासद्यूहति शान्त्यप्रदाहाय पुनरावर्तयति महिमानमेवास्य सन्दधाति पशुर्वा एषः यदश्वः एतरुद्रः यदग्निः यदश्वस्य फले अग्निवा दध्यात् रुद्राय पशूनपि दध्यात् अपशुर्यजमानः स्यात् यन्नाक्रमयेत् अनवरुद्धास्य पशव स्योः यथाहितस्याग्नेरङ्गाराभ्यपवर्तेरम्य अवरुद्धाश्च वचवो भवन्ति न रुद्रायापि दधाति त्रीणि हवेकं शि निर्वपदे विराजय विक्रान्तक्रमते अग्नये पवमानाय पावकाय अग्नय शुचये पाव अग्नयेवमानाय निर्वपदे पुनात्येवैनम् यदग्नये वावकाज भूतयेवास्मिन्नन्नाद्यम् दधाति यदग्नेषु च ब्रह्मवत्प्रसमेवास्मिन्नुपरिष्टाद्दधाति देवासुरासंयत्तासन् ते देवाविजयमुपयन्तः अग्नौ वावम् प्रसन्निदथ विदमु न भविष्यति विधि नो जेष्यन्तीति तदग्नामशक्नोत् तत्रेधा विन्यदधात् पशुस्तृतीयम् अप्सु तृतीयम् आदित्ये तृतीयम् तद्देवा विजित्य पुनरवादुरुत्सन्त हे अग्निजे पवमानानि पुराशुमट्टाकपालन्निरमपन् पशवो वा अग्निः पवमानः पशुष्पासीत् प्रत्येनावारुन्धरा हे अग्न्य यदेवास्वासीत् दे, तत्तेनावारुन्धत दे, ते असो वा आदित्योग्निश्रुतिः यदेवादित्यासीत् तत्तेनावारुन्धत ब्रह्मवादिना वदन्ति त्व न वो वा वैताज्ञाधेयस्य आज्ञेयो वा अष्टाकपालोऽज्ञाधेयमिति यत्तम् निर्भेत् नैतानि यथात्मा स्यात् नाङ्गानि तादृगे वदत् यदेतानि निर्मपेत् न यथाङ्गानि स्यो नात्मा तादृगे वदत् उभयानि सह निरुप्याणि यज्ञस्य स उभयम् एतस्य निजम् वैर्घ्यमाप्यते भोग्यमाधत्ते ऐन्द्राग्नमेकादशकपालमणेत् आदित्यञ्चलम् इन्द्राग्नि वै देवानामयातयामानौ ये एव देवते अयातयाम्नि ताभ्यामेवास्मा इन्द्रियम् देव्यमवरुन्धे आदित्यो भवति यम् वा आदितिः अस्यामेव प्रयतिष्ठति धेनैव एतद्रेतः यदाज्यम् अनृहस्तण्डुलाः वृषलमेवावरुन्धे घृते भवति यज्ञस्यालोभोक्षान्तत्वाय तत्त्वार आश्नन्ति विशामेव द्योयषति पशवो वा एतानि हवेगुंषे एष रुद्रः यदग्निः यत्सद्येतानि हवेगुंशि निर्प्रभेत् रुद्राय पशूनपि दध्यात् अपचुर्यजमाणः स्यात् यन्नानिर्ववेत् अनवरुद्धास्य पशवस्य द्वादशशात्रेश्वरनिर्ववेत् सम्वत्सरप्रतिमावे द्वादशरात्रयः संवत्सरेणैवास्मै रुद्रवंशमहित्वा अशोनवरुन्धे यदेकमेकमेतानि हवीगुंशि निर्ववेत् यथान्यापनानि पूरयेत् न दृष्टते न प्रजनमुच्चिगुंशेत् एकम् निरूप्य उत्तरे समस्येनवास्मि लोकमुच्छुकं शति प्रजननाय तम् प्रजापशुभि प्रजायते असो यज्ञस्यैवैषाभिप्रान् अथ शर्कम् प्रवर्तयति मनुष्यरथेनैव देवम् प्रत्यवरोहति ब्रह्मवादिना वदन्ति भोतव्यमज्ञोप्र जा इति यद्वेषाजुभुयात् अयथा पूर्वमाहुतेजुभुयात् यन्नजुभुयात् अग्निः परा भवेत् तोष्णीमेव होतव्यम् यथा पूर्वमाहुतेजु भवति नाग्निः परा भवति अग्नि चे ददाति अग्निमुखादेवत्तोऽन् प्रेणाति उपवर्षणम् ददाति रूपानामवरुध्यै अश्वम् ब्रह्मणे इन्द्रियमेवावरुन्धे धेनुकुम्भोक्त्रे आशिषयेवावरुन्धे अनड्वाहमध्वर्यवे बह्निर्वा अनद्वान् वह्निरद्भर्योः वह्निरेव वह्नियज्ञस्यावरुन्धे विधुनो गावो ददाति विघ्नस्यावरुध्यै वासो ददाति सर्वदेवत्यम् वै वासः सर्वा एव देवता प्रीणाति आद्वादशभ्यो ददाति द्वादशमासा संवत्सरः संवत्सर एव प्रतिष्ठति काममोर्ध्वन्धेयम् अवरिमितस्यावरुभ्यै घर्मशिरस्तदयमग्निः संप्रयः पशुभिद्भवते छद्दिस्तोकायतदयादिच्छा स्वदितन्ताकारतनयाय अकायतनयाय च प्राचे पुनः प्रतिशम्पेहि विद्वान् अग्नेरग्ने पुरोर्भवेह अग्ने विश्वा आशादे ओर्जन्नाथेः द्विपदे चतुष्पदे अर्कश्चक्षस्तुदसौर्यस्तदयमग्निः सम्प्रयः पशुभिते शुक्लशुक्रम् वर्चः शुक्रार्णोः शुक्रम् ज्योतिरजस्रम् तेन मेदिहिते सत्त्वादे अग्निनाग्ने ब्रह्मणा आदशे व्यानशे सम्भ्रमाजव्यानशे एते अग्ने शुभे तनुवौ विराक्ष स्वराच्च प्रेमाविशतान्ते माजन्मताम् एते अग्ने शुभे तनुवौ सम्भ्राच्च विभौश्च हेमाविशतान्ते विभोश्च मरिभोश्च प्रेमाविशतान् प्रेमाजन्मताम् एते अग्नेश्वे तनुभौ प्रभवीप्रभूतिश्च प्रेमाविशतान् प्रेमाजन्मताम् यास्ते अग्नेशिवास्तनुवः ताभिस्तादथे यास्ते अग्नेघोरास्तनुवः ताभिरमुच्छ इमेव एते लोका अग्नयः एदव्यावृत्ताधीनेरन् शोचने यजमानम् घर्मश्रयति कालिभवत्यमादधाति वासः प्राण इत्यन्वाहार्यवचनम् अर्पश्चक्षुरित्याहवनीयम् तेनैवैनान्यावर्तयति तथा न शोचनम् व्यजमानम् अथन्तरमभिकारे कालिभवत्याधीयमाने अन्तरिक्षम् वै वामदेव्यम् अन्तरिक्षदेवैनम् प्रतिष्ठितमाधत्ते अथो शान्तर्वै वामदेव्यम् शान्तमेवैनम् पशव्यमुद्धरते बृहदभिकारताहमलीयाधीयमाने वारिहतो वा असौ लोकः अमुष्मिन्नेवैनम् लोके प्रतिष्ठितमाधत्ते प्रजापतिरग्निमसजता तम् वारवन्ती येनावारयत तद्वारवन्तीयस्य वारवन्तीयत्वम् शैतेन शैते अकुरुत तच्छैतस्य शैतत्वम् यद्वारवन्तीयमभिगायते वार्यत्वैवेनम् प्रतिष्ठितमाधत्ते शैतेन शैते कुरुते धर्मस्य रगितिकारकवत्यमादधाति कृषीलषाणमेवैनमाधत्ते उपैनमुत्तरो यज्ञोनमति रुद्रोगा एषः यदग्निः सीयमाननेश्वरो यजमानस्य पशुरहितोः प्रियः पशुभिर्भवतित्याः पशुभिरेवैनकंसम्प्रियम् करोति पशोनामैगुंसादे छद्यस्तोकायतनगारिविच्छेत्याः आशिषमेवैतामाशास्ते पादप्राणैत्यन्वाहार्यवचनम् सप्राणमेवेन माधत्ते स्वजन्तोकारम् रचयत्याह अन्नमेवास्मैति प्राजीवनम् पतिदम्पे हि विद्वानित्याह विभक्तिरेवेन योः सा अथो नानावेर्यावेवेन उपरुते भोजन्नो दुष्पथित्याह आशिषमेवैतामाशास्ते अर्कश्चक्षुरित्याहीयम् अर्को वे देवानामन्नम् अन्नमेवावलम्भे एनमे दे दिहेत्याह समिन्ध एवैनम् आनशे व्यानशैरि त्रिलिङ्गयति तेरिमे लोकाः येष्वेवैनम् लोकेषु प्रतिष्ठितमाधत्ते तत्तथा न वेङ्गिलमप्रतिष्ठिरमारथीन उद्धत्यैवाधायाभिमन्त्र्यः अयेङ्गिलमेवमाधत्ते विराच्यस्वराच्ययास्ते अग्ने शिवास्तनुभस्ताभिस्तारशैत्याः एतावा अग्ने शिवास्तनुवः ताभिरेवेन कम्समर्थयति यास्ते अग्नेघोरास्तनुभस्ताभिरवम् गच्छयति ब्रूयाद्यन् विश्यात् भावयति शबीगर्भादग्निम् वन्थति हेषा वा अग्नेर्यज्ञातनोः तामेवास्ले जनयति अत च पुत्रकामः साध्येभ्यो देवेभ्यो ब्रह्मो धनमोचते तस्य उच्छेषणमदौ सारेतो धत्ता तस्य धाता चाह्यमाचाचारेता सा द्वितीयमवजने तस्य उच्छेण मदनुः प्राश्चाद सारेतो धत्ता अस्यै मित्रस्य वरुणश्च जायेताम् सा द्वितीयमवजने तस्या उच्छेण मदनुः प्राश्चादो धत्ता तस्य अगुञस्य भगश्च जायेताम् सा चतुर्थमवजते तस्य सा रेतो धत्ता तस्या इन्द्रस्य विवस्वादिष्टाजायेता ब्रह्मोदनम् पचति एतदेव तद्दधाति राष्टन्त्यब्राह्मणोधनम् यदाज्ञमुच्छिष्यते तेन समिधोऽभ्य दधाति उच्छेक्षणाद्वा इति रेतो धत्ता उच्छेक्षणादेव तद्रेतो धत्ते अस्थिवा एतदे यत्समिधः एतद्रेतः यदाज्ञेन समिभाति अस्थेव तत्रेतसि तथापि तिस्रा तथानत्वाय इयतेर्भवन्ति प्रजापचनायज्ञमुखेन संमिताः यतेर्भवन्ते यज्ञमनुषा संविताः यतेर्भवन्ति एतावद्वैपुरुष वीर्यम् वीर्यसंविताः आर्द्रा आर्द्रमिरेतस्य चित्रियस्याश्वत्थस्या दधाति चित्रमेव भवति धनवतिभिरादधाति एतद्वा अग्नः प्रियन्धाम यर्घनाम् नासमर्थयति अथोमे गायत्रेभिर्ब्राह्मणस्यादध्यात् गायत्री स्वस्य छन्दनः प्रत्ययनस्ताय द्रष्टुग्भैराजन्यस्य द्रष्टुच्छन्दावैराजन्यः स्वस्थ छन्दसप्रत्ययनस्ताय जगदीभिर्वैष्यस्य जगती छन्दावै वैश्यः स्वस्य छन्दसप्रत्ययनस्तायुम्वत्सरङ्गोपारेत् संवत्सरगम्भिरेतो हितम् एतदेपदधिरम् वर्धमानमेति न भागम् समश्मीयात् नरश्रियमुपेयात् यन् भागम् समश्मीयात् श्रियमुपेयात् निर्वीहर्य स्यात् नैनभग्यरूपधास्यमानो बृम्भौ धनम् पचति आदित्या वा इदमुत्तमास्वर्गम् लोकमायन् एते खलु वादित्याः निर्द्राह्मणाः तैरेव सन्तम् गच्छति नैनम् प्रतिलदन्ते ब्रह्मवादिना वदन्ति पादः अग्निः कार्यः प्रजाम् पशोन् प्रजनयतीति शल्कैस्तागौराग्निमग्नि तस्मिन् मौभ्युषमरणे निष्ठवेन् विषरितभागवासिरान्यामिच्छा इति तादृशे वदते अबोधोक्यभस्माग्निम् बन्धति सन्ततिः प्राञ्चमुद्धरति संवत्सरमेव तत्र हितम् प्रणयति अनाहितस्तस्याग्निरित्याहो यः समितो नासा याग्निवत्सरे द्वादश्याः पुरस्तादारध्यान् तम्वत्सरप्रतिमावे द्वादशरा त्रयः संवत्सरमेवास्याहिता भवन्ति यदि द्वादश्यान्नादध्यान् त्रये पुरस्तादारध्यान् आहितादेवास्य भवन्ति प्रजा प्रजापतिप्रजा असृजता सरिणानामन्यता सरपोतप्यता स आत्मन्येर्यमपश्यत् अदवर्धना तस्मात्सह सोऽध्वमसृज्यता सा विराटभवत् तान् देवासुराव्यगृह्णता सोऽत् प्रजापतिः महायेषा दोहायैव युष्माकमिति सा तदप्राच्युदक्रामदे तत्प्रजापतिःपर्यगृह्णान् अथर्वमिदम् मे गोपालयति सा द्वितीयमुदक्रामदे तर्यप्रजां मे गोपालयति सा तुलीयमुदक्रामदे तत्प्रजापदःपर्यगृह्णात् षड्गस्य पशोन्मे गोपालयति सा चोच्छमुदक्रामदे तत्प्रजापदिष्पर्यगृह्णात् सप्रसभां मे गोपालयति सा पञ्चममुदक्रामदे तत्प्रजापदिष्पर्यगृह्णात् तान् प्रजापैःपर्यगृह्णान् अथो पङ्क्तिमेव पङ्क्तिर्वा एषा ब्राह्मणे प्रविष्टामात्मनोते तस्मादेतावन्तोऽधीयन्ते पान्तम् वा इदम् सर्वम् पान्ते नैव पान्तग्निस्पृणोति अन्नमेवेतेन स्पृणोति तर्यप्रजामेव गोपायत्याह प्रजामेवेतेन स्पृणोति षड्गस्य पशून्मे गोपायत्याह पशूनेवेतेन स्पृणोति सप्तसभां मे गोपालयत्याह सभामेवेतेनेन द्विज्ञ स्पृणोति अरे बुद्धय मन्त्रम् मे गोपालयत्याह मन्त्रमेवेतेन श्र यज्ञ स्पृणोति े प्रीतायोस् प्रेत राति तेज सक प्रे ये सोश सीष्ट प्रेत यदावधे न गृम्हरन्ति तेन साभीष्टः प्रीतः तथाश्च सर्वे प्रीताभीष्टा आधीयन्ते प्रवसनेष्यन्नेवोपतिष्ठेतैकमेकम् ब्राह्मणाय विहे वासिने परिताय विधानेति राजिगेव तत् पुनरागृत्योपतिष्ठते सा भागेन तत् सा तथूर्ध्वारोहते तद्रो भवत् तद्रोहिण्येनोहित्वाम् रोहिण्यामग्निमादधीता स्वयवेन यो नौ प्रतिष्ठितमाधत्ते निर्ध्नात्य